अथ द्वादशोऽध्यायः वैशंपायन उवाच अथापरो दृश्यत पाण्डवप्रभुर्विराटराजम् तरसा समेवान्तमापतन्तम् ददृशे पृथग्जनो विमुक्तमभ्रादिव सूर्यमण्डलम् स वै हयानैक्षततांसतस्ततः समीक्षमाणम् सददर्शमत्स्यराट् ततोऽब्रवीत्ताननुगान्नरेश्वरः कुतोऽयमायाति नरोमरोपमः स्वयं हयानीक्षति मामकान् दृढम् हयज्ञो भविता विचक्षणः प्रवेश्यतामेष समीपमाशु मे विभाति वीरो हि यथामरस्तथा अभ्येत्य राजानममित्रः ब्रवीज्जयोऽस्तु मे पार्थिव भद्रमस्तुवः हयेषु युक्तोऽनुपसंमतः सदा तवाश्वसूतो निपुणो भवाम्यहम् विराट उवाच ददामि यानानि धनं निवेशनं ममाश्वसूतो भवितुं त्वमर्हसि कुतोऽसि कथं त्वमागतः प्रभ्रूहि शिल्पं तव विद्यते च यत् उवाच ददामि यानानि धनं निवेशनं अमाश्वसूतो भवितुं त्वमर्हसि कुतोसि कस्यासि कथं त्वमागतः प्रब्रूहि शिल्पं तव विद्यते च यत् वाचा कुलौ उवाच पञ्चानां पाण्डुपुत्राणां ज्येष्ठो भ्राता युधिष्ठिरः तेनाहमश्रेषु पुरा नियुक्तः अश्वानां प्रकृतिं वेद्मि विनयं सर्वशः दुष्टानां प्रतिपत्तिं चाकस्मञ्चैव न कातरं स्यान्मवजातु वाहनं न दुष्टा वडवा जनस्तु मामाः स पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः पठन्तरितु मातलिरिव देवपतेर्दशरथनुपते सुमित्रैव यन्ता सुमः इव जामदग्नेस्तथैव तव युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात् शतसहस्रकोटीनामश्वानामस्मि रक्षिता पठन्तरितु विराट उवाच यदस्ति किञ्चिन्मम वाजिवाहनं तदस्तु सर्वं तदधीनमद्य वै ये चापि केचिन्ममवाजी योजकास्तदाश्रयाः सारथयश्च सन्तु मे यदि वै सुरोपमा ब्रवीहि यत्ते प्रसमीक्षितुं वसु न तेऽनुरूपं हयकर्म विद्यते प्रभासिराजेव सम्मतो मम युधिष्ठिरस्येवैः दर्शनेन मे समं सवेदं प्रियमत्र दर्शनं वृत्तिः स वने वसत्यनिन्द्यो रमते च पाण्डवः वैशम्पायन उवाच तथा स गन्धर्वपरोपमो युवा विराटराज्ञा मुदितेन पूजितः न मन्येपि मन्येऽपि विदुः कथञ्चना प्रियाभिरामं विचरन्तमन्तरा एवं हि मत्स्ये न्यवसन्त पाण्डवा यथा प्रतिज्ञाभिरमोखदर्शनाः अज्ञातशर्यां विचरं समाहिताः समुद्रनेमीपतयोति दुःखिताः